हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे प्रथमः सर्गः हनुमन्तम् प्रशस्य श्रीराम कर्तृक तस्य परिष्वङ्गद्रतरणार्थम् तस्य चिन्ताकरणं च श्रुत्वा नो मतो वाक्यम् यथा वेदभिभाषितम् रामप्रीति स्मरयुक्तो वाक्यम् उत्तरम् अब्रवीत् कृतं हनूमता कार्यं सुमहेभुवि दुर्लभम् मनसापि यदन्येन न शक्यं धरणीतले न परिपश्यामि यत् तरेत महोदधिम् अन्यत्र गुरुडाद्वायो अन्यत्र च हनुमतः देव दानव यक्षाणां गन्धर्वोरगर् रक्षताम् अप्रधूष्याम् पुरीम् रावणेन सुरक्षिताम् प्रविष्ट सत्वमाश्रित्य जीवन् को नाम निष्क्रमेत् को विषे दु सुदुराधर्षाम् राक्षसै च सुरक्षिताम् यो वीर्य न समः साधनो मत हनुमतः सुग्रीवस्य कुसुम्बः एवं विधाय स्वबलम् सदृशम् विक्रमस्य च यो हि भृत्यो नियुक्तः भर्त्रा कर्मणि दुष्करे कुर्यात्तनुरागेण सम्बाहुः पुरुषोत्तमम् यो नियुक्तः परम् कार्यम् न कुर्याम् नृपते प्रियम् भृत्यो युक्तः समर्थ च तम्बाहुर्मध्यमन्नरम् नियत्तो नृपते कार्यं न कुर्याद्यस्तमाहितः मृत्यो युक्ताय समर्थत् तम्बाहु पुरुषाधमम् तन्नियोगे नियुक्तेन कृतं कृत्यं हनुमतः अहं च रघुवंश लक्ष्मणश्च महाबलः वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षितः इदम् तु मम दीनस्य मनोभूय प्रकर्षति यदि हास्य प्रिया क्षा तु न कुर्मः सदृशम् एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः मया कालम् प्राप्य दत्तस्तस्य महात्मनः इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्थम् परिचय स्वजे हनुमन्तम् कृतात्मानम् कृतकार्यमुपागतम् ज्ञात्वा पुनरुवाचेदम् वचनं रघुसत्तमः हरिणाम् ईश्वरस्यापि सुव्रीवस्योपशृण्वतः सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम् सागरं तु समासाद्य पुनर्नष्टं मनो मम कथं धर्म समुद्रस्य दुष्पारस्य महाम्भस हरियो दक्षिणं पारं गमिष्यन्ति समागतः यद्यप्येषु तु वृत्तान्तो वैदेह्यागदितो मम समुद्र किम् इवोत्तरम् इत्युक्त्वा शोकसम्भ्रान्तु रामश्चत्रुनिभर्हण हनुमन्तम् बाहु ततो ध्यानम् अपागमयत् इत्याख्ये श्रीमद् रामायणे वाल्मीकियादिकाव्ये युद्धकाण्डे प्रथमः सर्गः श्रीसीता रामचन्द्रार्पणमस्तु